अथैको न नवतितमः सर्गः दृश्यरात्रिम् तु तत्रैव गङ्गाकुले सराघवः काल्यमुत्थाय शत्रुघ्नमिदम् वचनमब्रवीत् शत्रुघ्नोत्तिष्ठ किम् शेषे निषादाधिपतिम् गुहम् शीघ्रमानय भद्रम् ते तारयिष्यति वाहिनी जागर्मिनाहम् स्वपिमि तथैव्यम् इत्येवमब्रवीत् भ्राता शत्रुघ्नोऽभिप्रचोदितः इति संवदतोरेवमन्योन्यम् नरसिंहयोः आगम्य प्राञ्जलिः काले गुहो वचनमब्रवीत् कच्चित का कच्चित् सुखम् नदीतीरे वात्सी काकुत्स्थशर्वरीम् कच्चिच्च सः सैन्यस्य तव नित्यमनामयम् गुहस्य तत्तु श्रुत्वा स्नेहादुदीरितम् रामस्यानुवशो वाक्यम् भरतोऽपीदमब्रवीत् सुखानः शर्वरी धीमन् पूजिताश्चापि ते वयम् गङ्गाम् तु नोभिर्बह्वीभिर्दाशाः सन्तारयन्तु नः ततो गुहः सन् त्वरितः श्रुत्वा भरतशासनम् प्रदिप्रविश्य नगरम् तम् ज्ञातिजनमब्रवीत् उत्तिष्ठत प्रबुध्यध्वम् भद्रमस्तु हि वः समुपकर्षध्वम् तारयिष्यामि वाहिनी ते तथोक्ताः समुत्थाय त्वरिताराजशासनात् पञ्च नावांशतान्येव समानिन्यः स नन्दि घोषाम् कल्याणीम् गुहो नाममुपाहरत् तामारुरोहभरतः शत्रुघ्नश्च महाबलः कौसल्याच च सुमित्रा च याश्चान्या राजयोषितः पुरोहितश्च तत्पूर्वम् गुरवो ब्राह्मणाश्च ये अनन्तरम् राजदारास्तथैवशकटापणाः आवासमादीपयताम् तीर्थम् चाप्यवगाहताम् भाण्डानि चाददानानाम् घोषस्तु दिवमस्पृशत् पताकिन्यस्तु तानावः स्वयम् दाशैरधिष्ठिताः वहन्त्यो जनमारूढम् तदा सम्पेतुराशुगाः नारीणामभिपूर्णास्तु काश्चित् काश्चित्तु वाजिना काश्चित्तत्र वहन्ति स्म यानयुग्यम् महाधनम् तास्तु गत्वा परम् निवृत्ताकाण्डचित्राणि क्रियन्ते दाशबन्धुभिः स वै जयन्तास्तु गजा गजारोहैः प्रचोदिताः तरम् तस्म प्रकाशन्ते सपक्षा इव पर्वताः नावश्चारुरोहस्त्वन्ये प्लवैस्तेरुस्तथापरे अन्ये कुम्भकटैस्तेरुरन्ये तेरुश्च बाहुभिः सा पुण्या ध्वजनी गङ्गाम् दाशैः मैत्रे मुहूर्ते प्रययौ प्रयागमनमुत्तमम् आश्वासयित्वा च च मोम् च यथोपजोषम् द्रष्टुम् भरद्वाजमृषिप्रवैर्यमृत्विक् सदस्यैर्भरतः प्रतस्थे स ब्राह्मणस्याश्रममभ्युपेत्य महात्मनो देव पुरोहितस्य ददर्शरम् न्योटज वृक्षदेशम् महद्वनम् विप्रवरस्य रम्यम् इत्यार्षे श्रीमद्